एकादशोऽध्यायः ध्यानम् ओ बालकविद्युतिबिन्दुविरीताम् पुङ्गलगुरा नयनत्रययुक्ताम् बालरविद्युतिबिन्दुविरीताम् कुङ्कुरा नयनत्रययुक्ताम् मेरमुखी वरदा कुशपाकुव मेरमुखी वरदा कुशपाकुवेशवाच दहासुरेन्द्र दहासुरेन्द्रेन्द्रास्तुराबंधिपुरगस्ता का जूरिस्थलाभास्तूरिस्थलाभाज विकाशितागातिमताब विशितापन्ना हसीद दी प्रपन्ना हसीद प्रतीरमादर्जग जगतो बिगसे सतीर विश्वेश्वरि बाहि विश्वम् सतीरविश्वेश्वरि बाहि विश्वम् स्वमीश्वरीदेवितराचरस्य स्वमीश्वरीदेवितराचरस्य आधारभूता जगतस्वमेका आधारभूता जगतस्त्वमेका महीस्वरूपेण यतस्थितासि महीस्वरूपेण यतस्थिताति अपाम् अपान्तरूपस्थितया त्वयैतत् आप्यायते कृष्णमलङ्घवीर्ये आप्यायते कृष्णमलङ्घवीर्ये आप्या स्वों वैश्वबीशक्तिरनन्तवीर्य भी स्वं वैश्वबीशक्तिरनन्तवीर्या भी विश्वस्य बीजम् परमासिमाया विश्वस्य बीजम् परमासिमाया सम्मोहितम् देवि सम्मोहितम् देवि समस्तमेतत् वं वै प्रसन्ना भुजिमुक्तिहेतुः वं वै प्रसन्ना भुजिमुक्तिहेतुः विद्या समस्तास्तवदे विभेदाः विद्या समस्तास्तवदे विभेदाः स्त्रियस्तमस्तास्तकला जगत्सु स्त्रियस्तमस्तास्तकला जगत्सु त्वयैकया यैकया पूरितमम्बजतत् आदेस्तु तिस्तव्यबलापरोक्तिः आदेस्तु तिस्तव्यबलापरोक्तिः सर्वभूता यदा देवी स्वर्गमुक्तिप्रदायिनी सर्वभूता यदा देवी स्वर्गमुक्तिप्रदायिनी स्वम् भवन्तु परमोक्तयः स्वम् भवन्तु परमोक्तयः सर्वस्य बुद्धिरूपेण जलस्य हृदि संस्थिते सर्वस्य बुद्धिरूपेण जलस्य हृदि संस्थिते स्वर्गापवर्गदे देवि नारायणि नमोस्तुते स्वर्गापवर्गदे नारायणि नमोस्तुते कलाकाक्षादिरूपेण ना परिणामप्रदायिनी कलाकाक्षादिरूपेण परिणामप्रदायिनी विश्वस्योपरतौ शक्ते नारायणि नमुस्तुते विश्वस्योपरतौ शक्ते नारायणि नमोस्तुते सर्वमङ्गलमाङ्गल्ये दिवे सर्वार्थसाधिके सर्वमङ्गलमाङ्गल्ये दिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरिधारायणि नमोस्तुते शरण्ये त्र्यम्बके गौरिधारायणि नमोस्तुते सृष्टिस्थितिविनाशानाम् शक्तिभूते सनातनि सृष्टिस्थितिविनाशानाम् शक्तिभूते सनातनि गुडाश्रये गुणमये नारायणि नमस्तुते गुडाश्रये गुणमये नारायणि नमस्तुते शरणागत दीनार्थपरिप्राणपरायणे शरणागत दीनार्थपरिप्राणपरायणे सर्वस्यार्थिहरे देविधारायणि नमस्तु ते सर्वस्यार्थिहरे देविधारायणि नमस्तु ते हंसयुक्तविमानस्थे ब्रह्माणि रूपधारिणि हंसयुक्तविमानस्थे ब्रह्माणि रूपधारिणि कौशाम् वहः करिके देविधारायणि नमस्तु कौशाम् वहः करिके देविधारायणि नमस्तु ऋशूलतिधरे महावृषभ वानीशूलचंद्राधरे महावृषभ वानीह स्वूपेण नाराणिन महेस्वीवेण नारायणिमुस्ुते मजूरकुक्कुटते महाशक्तिधरे न घे मजूरकुक्कुटते महाशक्तिधरे धरे घे कौमारी स्थाने नारायणि नमुस्तुते कौमारीरूपसम् स्थाने नारायणि नमुस्तुते सङ्खचक्रगदाचारगृहीतपरमायुधे सङ्खचक्रगदाचारगृहीतपरमायुधे प्रसीदमैष् नभीरूपे नारायणि नमुस्तुते प्रसीदमै नारायणि नमुस्तुते गृहीतोऽग्रमः चक्रे संश्रोद्धृतवसुम्भरे गृहीतोऽग्रमः चक्रे संश्रोद्धृतवसुम्भरे बलाहरुवीजिवे नारायणि नमुस्तुते बलाहरुवीजिवे नारायणि नमुस्तुते नृसिंहरूपेणोऽग्रेण हन्तुम् दैत्याम् कृतोद्यमे नृसिंहरूपेणोग्रेण हन्तुम् दैत्याम् कृतोद्यमे त्रैलोक्यत्राणसहिते नारायणिनमुस्तुते त्रैलोक्यत्राणसहिते नारायणिनमुस्तुते किरीटिनिमहावस्त्रे सहस्रनजनोज्वले किरीटिनिमहावस्त्रे सहस्रनजनोज्वले वृत्रप्राणहरेतैन्द्रि नारायणि नमुस्तुते वृत्रप्राणहरेतैन्द्रि नारायणिनमुस्तुते शिवदूतीस्वरूपेण हतदैत्य महाबले शिवदूतीस्वरूपेण महाबले भोररूपे महारावे नारायणि नमोस्कृते भोररूपे महारावे नारायणि नमस्कृते दंस करालवदने शिरोमालादिभूषणे सा मुंडे मुंडा महने नारायणिनमस्तते सा मुंडे मुंडा महने नारायणिनमस्तते लक्ष्मी लज्जे महाविद्ये श्रद्धे पुत्तिस्वदे ध्रुवे लक्ष्मी लज्जे महाविद्ये श्रद्धे पुत्तिस्वदे ध्रुवे महारాత్రి महाविद्ये नारायणिनमस्तते महारాత్రి महाविद्ये नारायणिनमस्तते मेधेतनस्प्रतिवरे भूति वा भ्रवितामसि मेधेतरस्प्रतिवरे भूति नियते त्वम् प्रतीदेशे नारायणि नमुत्स्तुते नियते त्वम् प्रथीदेशे नारायणि नमुस्तुते सर्वस्वरूपे सर्वे ते सर्वशक्तिसमन्दिते सर्वस्त्वरूपे सर्वे भयेभ्यत्राहि नो देवि नमस्तुते भयेभ्यत्राहि नो देवि दुर्गे देवि नमस्तुते एतत्तेवदनम् सौम्यम् लोचनत्रयभूषितम् एतत्तेवदनम् सौम्यम् लोचनत्रयभूषितम् पातुनः सर्वभीतिभ्यः कात्म्याजलि नमस्तु ते पातुनः ज्वालाकरालमत्युग्रमथेधातुरसूदनम् ज्वालाकरालमस्युग्रमथेधातुरसूदनम् त्रिशूलम्पातु नो भीतेर्भद्रकालिनमोस्तुते त्रिशूलम्पातु नो भीतेर्भद्रकालिनमोस्तुते हिनश्चिदैत्यतेजाम् तिस्वनेन पूजया जगत् किलश्चिदैत्यतेजाम् तिस्वनेन पूजया जगत् सा घण्टा पातु नो देवि पापेभ्यो नस्तुतानिव सा घण्टा पातु नो देवि पापेभ्यो नस्तुतानिव असुराशग्भ्वस भवतु कण्डिके स्वां नताभयम् भवतु कण्डिके स्वां रोगाणशेजानपहम् चतुष्ठा उक्तातु तामान् सकलानभीस्तान् रोगाणतेजानपहम् चतुष्ठा उक्तातु तामान् सकलानभीता वामाश्रितानाम् प्रयान्ति वामाश्रितानाम् न विपन्नराणाम् प्रयान्ति एतत्कृतम् यत्कदनम् तयाजधर्मस्विधाम् देविमहासुराणाम् एतत्कृतम् यत्कदनम् तयाज्यधर्मस्विधाम् देविमहासुराणाम् रूपेण नेकैर्बहधात्मनो चेन्दृत्वाम्बिकेतत्प्रकरोति कान्या रूपेण नेकैर्बहधात्मनोचिन्दृत्वाम्बिकेतत्प्रकरोति कान्या विर्यासु शास्त्रेषु विवेकदीपे स्वाद्येषु वाक्येषु च कात्पदन्या विर्यासु शास्त्रेषु विवेकदीपे स्वाद्येषु वाक्येषु च कात्पदन्या ममत्वगर्तेति महान्धकारे रुभ्रामयत्येतदतीव विश्वम् ममत्वगर्तेति महान्धकारे रुभ्रामयत्येतदतीव विश्वम् रक्षांसि यत्रोग्रदिशाश्चना गायत्रालयोदस्यु बलानि यत्र रक्षांसि यत्रोग्रदिशाश्च न गायत्रालयोदस्यु बलानि यत्र दावानलो यत्र तथाभिमध्ये तत्र स्थिता त्वम् विश्वम् दावानलो यत्र तथाभिमध्ये तत्र स्थिता त्वम् विश्वम् विश्वेश्वरित्वम् परिपाति विश्वम् विश्वात्मिराधारयतीति विश्वम् विश्वेश्वरित्वम् परिपाति विश्वम् विश्वात्मिराधारयतीति विश्वम् भवती भवन्ति विश्वाश्रयाये त्वयि भक्तिनम् देविः प्रसीदपरिपालय नोरिभीतेऽर्नित्यम् यथा सुरवधा दर्णैव सद्यः देविः प्रसीदपरिपालय नोरिभीतेऽर्नित्यम् यथा सुरवधा दर्णैव सद्यः आपाणि सर्वजगताम् प्रशमम् नयासु उत्पातपादजनितांश्च महोपसर्जान् आपाणि सर्वजगताम् प्रथमम् नयासु उत्पातपागजनिताम् च महोपसर्जान् प्रणतानाम् प्रसीदत्वं इदत्वम् देवि विश्वात्सिहारिनि प्रणतानाम् प्रति इदत्वम् देवि विश्वात्सिहारिनि लोकानाम् वरदा भव त्रैलोक्यवासिनामेद्ये लोकानाम् वरदा भव देव्युवाच वरदाहम् तु रगणा वरम् यन्मनसेत्सथ वरदाहम् तु रगणा संपृणध्वम् त्वयस्थालि जगतामुपकारकम् संपृणध्वम् त्वयस्थालि जगतामुपकारकम् देवाऊसुः सर्वा बाधाप्रशमनम् तैलोक्यस्याखिलेश्वरि सर्वा बाधाप्रशमनम् तैलोक्यस्याखिलेश्वरि एवमेव त्वया देव्युवाच भैवत्वतेऽन्तरे प्राप्ते अष्टाविंशति मे युगे वैवत्वतेऽन्तरे प्राप्ते अष्टाविंशति मे युगे शुम्भोदिषुम्भटवान्याभुत्पत्येते महासुरौ शुम्भोदिषुम् भष्टैवान्याभुत्पत्स्येते महासुरौ नन्दगोपगृहे दाता यशोदागर्भसम्भवा नन्दगोपगृहे दाता यशोदागर्भसम्भवा परस्तौनाशयिष्यामितिभ्यातलनिवासिनी परस्तौ नाशयिष्यामितिभ्यातलनिवासिनी पुनरप्यतिरौद्रेण ना रूपेण ना पृथिवीतले पुनरप्यतिरौद्रेण रूपेण पृथिवीतले अवतीर्यः इत्यामि भयः प्रतिष्टाम् अवनीय ह्या भई प्रचिता अवदीय ह्या प्रतिदान अवनी ह्या भई प्रचिता दिष्य दाड़ि कुसुमोप्रक्ता दमता भविष्य दाड़ि कुसुमोपो मेवता स्वर्गे मिलोके मनवा ततो माम् देवता स्वर्गे वत्यलोके च मानवाः सुवन्तो व्याहरिष्यन्ति सततम् न क्रदन्तिकाम् भूयश्च शत वार्तिक्यामना विश्यामनम् भवि भूयश्च शत वार्तिक्यामना विश्यामनम् भवि मुनिवेत्तम् स्तुता भूमौ सम्भविष्याम्ययो निजा मुनिवेत्तम् स्तुता भूमौ सम्भविष्याम्ययो निजा ततः कतेन लेत्राणाम् निरीक्षिस्यामियम् मुनीन ततः कतेन लेत्राणाम् निरीक्षिस्यामियन्मुनीन् कीर्तयिष्यन्ति मनुजास्तताखीनीदिमान्ततः कीर्तयिष्यन्ति मनुजास्तताखीनीतिमाम् ततः ततोऽहमखिलम् लोकमात्मदेहसमुद्भवैः ततोऽहमखिलम् लोकमात्मदेहसमुद्भवैः धरिष्यामि सुरा अच्चाकैरावृष्टे स्थाणधारकैः धरिष्यामि सुरा अच्चाकैरावृष्टे स्थाणधारकैः साकम् भै दिलिख्यातिम् पदायास्याम्यहम् भुवि साकम् भै दिलिख्यातिम् पदायास्याम्यहम् भुवि तरत्रैपदवधिस्यामि दुर्गमाख्यम् महासुरम् तरत्रैपदवधिस्यामि दुर्गमाख्यम् महासुरम् दुर्गादेवीति विख्यातम् तन्मे नाम भविष्यति दुर्गादेवीति विख्यातम् तन्मे नाम भविष्यति पुरस्काहम् यदा अभीवम् रूपम् कृत्वा हि मातले पुरस्काहम् यदा अभीवम् रूपम् कृत्वा हि मातले रक्ताम् शिभकजिष्याविभुनीनाम् स्खाणकारणात् रक्षाम् शिभः क्रजिष्याविभुनीनाम् स्खाणकारणात् तदा वाम् मृनयत् सर्वे स्तोश्यन्त्यानम् रमूर्तयः तदा वाम् मृनयत् सर्वे स्तोष्यन्त्यानम्रहमूर्तयः भीमादेवीति नाम भविष्यति भीमादेवीति विख्यातम् नाम भविष्यति यदा रुणाघ्यत्रैलोक्ये महाबाधाम् करिष्यति यदा रुणाघ्यत्रैलोक्ये महाबाधाम् करिष्यति तदाहं हम्भ्रामरम् रूपं कृत्वा सङ्ख्येयषट्पदम् तदा हम्भ्रामरम् रूपम् कृत्वा सङ्ख्येयषट्पदम् त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम् त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम् भावरीतिजमाम् लोकास्तदा स्तोस्यम् जिखर्वदः भ्रावरीतिजमाम् लोकास्तदा स्तोस्यम् जिखर्वदः इत्थम् यदा यदा अबाधा दानवोत्था भविष्यति इत्थम् यदा यदा भविष्यति तदा तदा इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्मन्तरे हात्मे दुतिर्नादशोध्या्रीमाकंडेयुराणे सवर्णिके मन्वी महात्मे दुतिर्नाम एकाशोध्या